मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता देवयान्युवाच निष्कृतिर्मेमस्तु वामास्तु शृणुष्वावहितो मम शर्मिष्ठया यदुक्तास्मि दुहित्रावृषपर्वणः सत्यं किलैतत्सा प्राहदैत्यानामसि गायनः एवं हि मे कथयसि शर्मिष्ठा वचनं तीक्ष्णपरुषं क्रोधरक्थे दुहिता नित्यं याचतः प्रतिगृह्णतः अहं तु स्तूयमानस्य ददतो इदं मामाह शर्मष्ठा दुहितो वृषपर्वणः क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः यद्यहं स्तुतवतस्तातदुहिता प्रतिगृह्णतः प्रसादयिष्ये शर्मष्ठामित्युक्ता तु सखीमया उक्ताप्येवं भृशं क्रुद्धा मां गृह्यविजने वने कूपे प्रक्षेपयामासप्रक्षिप्यैव गृहं ययौ शुक्र स्तुतवतो दुहिता न त्वं अस्तु तु स्तूयमानस्य दुहितादेव यान्यसि वृषपर्वैव तद्वेदशक्रो राजा च नाहुषः अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम यच्च किञ्चित् सर्वगतं भूमौ वा यदि तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयं भुवाँ अहं जलं विमुञ्चामि प्रजानां हितकाम्यया पुष्णाम्योषधयः सर्वा इति सत्यं ब्रवीमिते वैशम्पायन उवाच एवं विषादमापन्नामन्युना सम्प्रपीडितां वचनैर्मधुरैष्वक्ष्णैः सान्त्वयामासतां पिता इति महाभारते संभव इतिमहाभार आदिपर्वण संभवपर्वि ययाच्युपाख्यामसमोध्याय